अथ अष्टनवत्यधिकशततमोऽध्यायः वैशम्बाय न उवाच पाण्डवैः सह संयोगम् गतस्य द्रुपदस्य न बभूव भयम् किञ्चित् देवेभ्योऽपि कथञ्चन कुन्तीमासाद्यता नार्यो द्रुपदस्य महात्मनः नाम जग्मुः पादौ स्वमूर्धभिः कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला का कृताभिवादना श्वश्वा स्तस्थौ प्रह्वा कृताञ्जलिः प्रथाशीर्वचनं स्नुषाम् यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ रोहिणी यथा सोमे दमयन्ती यथा नले यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धति यथा नारायणे लक्ष्मीः तथा त्वम् भवभर्तृषु जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता सुभगा भोगसम्पन्ना यज्ञपत्नीपतिव्रता अतिथीनागतान् साधून् वृद्धान् बालांस्तथा गुरोन् पूजयन्त्या यथा न्यायम् शश्वद्गच्छन्तु ते समाः कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च अनुत्वमभिषिच्यस्व नृपतिम् धर्मवत्सल पतिभिर्निर्जितामुर्वीम् विक्रमेण महाबलैः कुरु ब्राह्मणसात् सर्वामश्वमेधे महाकृतौ पृथिव्यां यानि रत्नानि गुणवन्ति गुना गुणान्विते तान्याप्नुहि त्वम् कल्याणी सुखिनी शरदां शतम् यथा तथा भूयो भूय्ये जातपुत्र गुणाव